हरि ओम् श्रीसीतारामचन्द्राभ्यम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे अशीती सर्गः रावणस्य आदेशेन इन्द्रचितो घोरम् युद्धम् तस्य वध विषये श्रीरामलक्ष्मणयोः सन्तापश्च मकराक्षम् हतम् रावणः समितिञ्जयः रोषेण महताविष्टो दन्तान् कटकटाय्य च कुपितश्च सदा तत्र किं इति चिन्तयन् आदिदेशाथ संक्रुद्धो प्रणायेन्द्रजितम् सुतम् जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ अदृश्यो दृश्यमानो वा सर्वथा संबलाधिकः तम् इन्द्रं जयसि संयुगे किं पुनर्मानुषो दृष्ट्वा न संयुगे तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः यज्ञभूमौ स विधिवत् पावकं जुह्वेन्द्रजीत् जुह्व चापि तत्राग्निं रक्तोष्णीषधरास्त्रियः आजग्मो तत्र सम्भ्राता राक्षस्यो यत्र रावणिः शस्त्राणि शरपत्राणि समिधोऽ विभीतकः लोहितानि च वसासि ध्रुवं काष्णायसं तथा सर्वतोऽग्निं समासीर्य शरपत्रे सतो मरे चागस्य सर्वकृष्णस्य गलं जग्राह जीवतः सक्रुद्धोमसमिद्धस्य विधूमस्य महाशिषः बभूवूस्तानि लिंगानी विजयम् दर्शयन्ति च प्रदक्षिणा वर्तशिख तप्तःटकसन्निभः हवित्त प्रतिजग्राह पावक स्वयमुत्थितः कुत्वाग्निम् तर्पयित्वाथ देव दानव राक्षसान् आरुरोह अन्तर्धा न गतं शुभं सर्वाजिभिः चतुर्भिस्तु बाणैस्तु निश्चितैर्युतः आरोपितमः चाप शुशुभे स्यञ्जनोत्तमः जाज्वल्यमानो वपुषाय तपनीय परिच्छदः मृगैश्चन्द्रार्धचन्द्रे च स्वरथ समलङ्कृतः जाम्बूनदमः निभ बहुवेंद्र चित केुर्यकृत तेना चादीत्यक ब्रह्मस्त्रेण च पालिता स बभूव दुराधर्शो रावणी सुमहाबल सोभ नगरा इंद्रजीत समित हुआ राशसेसे मंत्री अन्तर्धानगतो ब्रवीत् अद्य हत्वा रणे योतौ मिथ्या प्रव्रजितो वने जयम् पित्रे पदास्यामि रावणाय रणेऽधिकम् अद्य निर्वाहणरामूर्वीम् हत्वा रामं च लक्ष्मणम् करिषे परमाम् प्रीतिम् इत्युक्त्वान्तरधीयत आपपातार्थ संक्रुद्धौ दशग्रीवेण चोदितः तीक्ष्ण कार्मुक नाराटी तीक्ष्णरिस्पिन्दु रिपुः प्रणे सददर्श महावीर्यौ नागोत्री शरसा वृजन्ता विषुजालानि वीरो वा नर्मध्यगौ इमताौ विचिन्त्य सज्जं कृत्वा च कार्मुकम् सन्तताने शुराधाराभिः पर्जन्यैव वृष्टिमान् स तु वैहाय्य शरथौ युधितौ रामलक्ष्मणौ अचक्षुर्विषये तिष्ठन् विव्याध निशितै शरी तौ तस्या शरवेगेन परितौ रामलक्ष्मणौ धनुषि सशरी कृत्वा दिव्यं वस्त्रं प्रच्छादयन्तो गगनम् शरजालैर्महाबलो तमस्त्रै सूर्यसङ्काशै नैव पस्पशतः शरैः सहीधुमान्धकारं चक्रे प्रच्छादयन्नभय दिदश्चान्तर्दधे श्रीमान् निहार तमसा नैव जातलग जातलनिर्घोषौ न च नेमि खुरस्वनः शुश्रुवे चरतस्तस्य न प्रकाशते घनान्धकारे तिमिरे शिलावर्षमिवद्भुतम् स वर्ष महाबाहु नारा च शरवृष्टिभिः स रामम् सूर्य सङ्गाशय शरे विव्याध समरे सर्वगात्रेषु रावणिः तौ हन्यमानो नाराचै धाराभिरिव पर्वतौ हेमपुङ्खान् द्रव्याघ्रौ तिग्मान्धूमू चतुश्चरान् अंतरिक्षे समासाध्य रावणीं कङ्कपत्रिणः निकृत्य पतगा भूमौ पेतुस्तेषोणिताप्लुतः अतिमात्रं च रोघेण दीप्यमानो नरोत्तम तानीषुन् पततो वल्लैः अनेकैविचर्ततुः यतो हि ददृशा ते तौ शरान् निपतितान् शितान् ततस्तु तौ दाशरथि सजृजाते समुत्तमम् रावणस्तु व्याधर तौ दाशरथि लघ्वस्त्रो निजितै शरैः ते नातिविधौ तौ वीरोपुङ्खै सुसंहते बभूवतु दाशरथि पुष्पितौ इव किञ्चुकौ नास्य वेगवतीं नचरूपं न च रूपम् धनुशरन् तेन रिद्धाच च हरि निहता च गता पतिताय धरणितरे लक्ष्मणस्तु तद क्रुद्ध भ्रातरं वाक्यम् अब्रवीत् ब्रह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसां तम्भुवाच ततो लक्ष्मणं शुभलक्ष्मणम् नैकस्य हेतो रक्षासि पृथिव्यां हन्तुमर्हसि अयुध्यमानं प्रच्छन्नं प्राञ्जलिं चरणागतम् पलायमानं मत्तं वा न हन्तुं त्वं हर्हसि तु अधे करिष्यामि महाभुज आदेक्षा वो महावेगान् अस्रा मायिनं क्षुद्रम् अन्तर्हीतरथम्बलात् राक्षसं न्यनिष्यन्ति दृष्ट्वा वानर यूथपः यद्ये च भूमिं विशदे दिवं वा रसातलं वा पि वा एवं विगूढोऽपि ममात्र दग्ध पतिष्यते भूमितले इत्येव मुक्ता वचनं महार्थम् रघुप्रवीरः प्लवर्ष भैरृतः वधाय रौद्रस्य नृशन्स महात्मा तुतं निरीक्षते इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्य युद्धकाण्डे अशीतितमः सर्गः प्रीतितारामचन्द्रवणमस्तु